गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् एण्ड् फैव् क उवाच ततो भाद्रचतुर्ध्यां तु ते सर्वे मुनिबालकाः मृदमाकर्तुमायादा विमलां तामधानयन् स्वस्वबुद्ध्या विधायाशु मूर्तिर्नानाविधाशुभाः सिंहारूढा मयूरस्था काश्चिन्मूषकसंस्थिताः नानायुधतरा नानादिव्यालङ्कारसंयुताः चतुर्भुजा गणेशस्य दिव्यगन्धाम्भराशुभाः भक्त्या परमया पूजनुपचारैः पृथक् पृथक् मण्डपे ताः पादर्शप्रभा युजी पद्मपुष्पयुता माला ददुस्तास् सुमनोहराः वाद्यत्सुदूर्यकोषेषु नगरी हर्षमापसा गौरी तस्यां सम्भूज्य विधिवद्भक्त्या हरिद्राकुङ्कुमादिभिः एतस्मिन्नन्तरे दैत्यो विश्वदेव इति श्रुतः भगवद्रूपमस्ताय श्रीमुद्राङ्कितमाय यौ शङ्खचक्रगदापद्मवनमालालसत्तनुः तुलसीदामरुचिरो दिव्यवस्त्रानुलेपनः कमण्डलुवारिपूर्णम् वेणुदण्डम् दधत्करे गौरी तमद्धितम् द्वारि तिष्ठन्तम् प्राकभक्तिदः कुत आगम्यते ब्रह्मम् स्तुष्टाकम् तव तेजसा इत्युक्तः प्राकदाम् विप्रश्रुतवानस्मि यत्पुरा तद्दृष्ट्वा नयनाभ्याम् ते परितुष्टम् मनो मम क्षुधया पीडितश्चाकम् भवदी गृहमागतः पार्वत्युवाच वाचा भुज्यताम् भुज्यतां स्वस्तं च तत्रासने स्थितः आसीनस्य मयूरे स्योविष्टरे क्षालयत्तदा चरणौ तत्तीर्थजलैः शिषे च सर्वदोमलैः सम्भोज्य भोजयामास पक्वान्नैः पायसैरपि अपो शानकरस्तूष्णीमासीत् द्विजः ओमो वाच द्विजं योग्यं तदा दास्यदि वाञ्छितं वद क्षीरार्णवस्थितं देवं दृष्ट्वा नित्यं भुञ्ज्म्यहं जलं पिबामि तच्चाद्य विस्मृतं मोहदो मया उमो वाच पूर्वमेव कथं नो क्रो नियमस्ते द्विजोतम पात्रादुद्धाय गन्धासि कथं सत्त्वविलुम्पक शङ्करः क्षोभमापन्नो न जाने किं करिष्यति मयूरे शोब्रवीत्तत्र यदि भावो दृढो हृदि तदात्रैव भवेत्पद्मनाभेर्दर्शनमाशुते प्रायो भाग्यमगदृष्टं यत्पक्वान्नं च पायसं त्यक्त्वा व्रजसि कुत्र मूढभावेन वा बहुजन्मतपोभिर्यत्कटाक्षो भुवि लभ्यते तया दे परिवृष्टान्न कथं त्यजसि ब्रह्मादीनां न गम्या दृष्टा साक्षात् त्वया शिव सर्वलोकस्य जननी सर्वयोषिद्वराशि सर्वेषामेव देवानां शक्तिः सा तद्दर्शनेन देवस्य विष्णोर्जातं हि दर्शनं चकोरस्येवाग्निभुजो मिष्टान्नं नैव रोचते तथा किं तेन रोचेत देवान्नममृतोपमं मम वा सर्वरूपस्य दर्शनस्य दृशिर्भवेद्विज उवाच रमापदेरहं दासो न नमस्यामि किञ्चन यदि त्वं सर्वरूपोऽसि यदि सामर्थ्यमस्ति ते तदा दर्शय विश्वेश्वं नारायणमनामयम् एवं बुद्ध्वा दृढं तस्य निश्चयं समयूरराड अन्तर्धाय प्रादुरासीन्नारायणस्वरूपवान् सीताम्बरः शङ्खचक्रगदापद्मधरो विभुः नानालङ्काररुचिरः सर्वालङ्कारसुन्दरः कौस्तुभेन लसद्वक्षावनमाला विभूषितः शशशायी महालक्ष्म्याः संवाचितपदाम्भुजः विश्वदेवश्च तं दृष्ट्वा न नाम परिपूज्य च यादस्तन्मयदाम्भक्रिया विस्मृत्य च शरीरताम् उवाच चिदानन्दपरिपूर्णो द्विजोत्तमः अद्यधन्यं जनुर्मेद्यजीवितं च सुजीवितम् अध्येयं नगरी धन्या धन्यौ तौ मम मयूरेशोपदेशेन भवान्या दर्शनेन च परत्परस्य विष्णोस्ते चराचरस्वरूपिणः लब्धं दर्शनमत्रैव सर्वान्तर्यामिणो विभोः नारायणोऽपितं भक्तं बाहुभिः परिशस्वजे उवाच प्रसन्नात्मा बाष्पगद्गदया गिरा मदर्थं त्यक्तवान् भुक्तिं क्षीराब्धेरहमागतः दृष्ट्वा ते निश्चयम् भक्तिं दृढामव्यभिचारिणीं भक्तमार्गं प्रसिञ्चामि मारुतोद्धतकण्टकं भक्ततृषान्निवृत्यर्थं जादोऽहं जलरूपधृक नानारूपधरो जादो भक्तानामार्तिनाशनः यथा भक्तप्रियो नित्यमिति ते दर्शयाम्यहम् अभूद् भाद्रचतुर्थ्यां हि मयूरेशमहोत्सवः मूर्तिं महीमहीं कृत्वा बर्ह्याखुसिंहगां पृथक् नानालङ्कारशोभाढ्यां नानारङ्गैः सुशोभिताम् अनेकैः पूज्यतां सम्यक् केचिदग्रे प्रगायन्ति केचिन्नृत्यन्ति भक्त्रितः वाचयन्ति पुराणानि प्रदक्षिणपराः परे एतस्मिन्नन्तरे पौत्रो वसिष्ठस्य महात्मनः पराशर इदिख्याद ख्यात आययौ स्वेच्छया मुनिः स चतुर्षिको मूर्तिं विदधे भक्त्रितत्परः शुष्कपर्णकृतां मालां कृत्वा तस्मै न्यवेदयद गन्धबुद्ध्या कर्दमेन तां व्यलेपयदादराद मिष्टान्नानि च लड्डूकान् दक्षिणां च फलानि च न्यवेदयत्तदा पत्रैरनेकैकर्दमैरपि सङ्कल्पं लीलया चक्रं जङ्घावाद्यं शनैः शनै मुहूर्तं नर्तनं कृत्वा रुरोद भक्षयेति च सम्प्रार्थ्य मूर्तिं बहुधा ततः सा चेतनां ययौ यद्यत्तेन यदुद्देश्या स्थापितं पुरतो भवद तत्तथैव च संजातं ततः सा भक्षयत्तदा लड्डुकान् मोदकान्नापक्वान्नं पायसान्विधम् विश्वदेवश्च तं दृष्ट्वा मिथ्याभूदं यथार्थवद मृतकान्नानि सत्यानि सर्वं पुष्पफलादिकं सचेतनां च तां मूर्तिं षड्भुजां च पुनः पुनः व्यलोकयद्विष्णुरूपां च दुर्बाहुविराजितम् उवाच सततं देवं किमिदं मृत्तिकाशनं मूर्तिरुवाच भक्त्या यदर्पितं मह्यम् सुधारससमं भवेद् अभक्तान् पिदमृद्धं विषमेव भवेन्मम क उवाच एवं तद्वचनं श्रुत्वा विश्वदेवोऽब्रवीत्पुनः हस्ते भक्तो मम च दन्दर्शयस्व सुरेश्वर ततस्तस्य करं धृत्वा बहिरायान्मयूरराड गृहे गृहे पूज्यमानं देवं तस्मै व्यदर्शयत शिखिनं सुसमारूढं मयूरेशमलोकयत तत्रापि पर्यपश्यत् स विश्वदेवयुधं च बुद्धिं विसृज्यतां गृहे गृहे विश्वदेवो नारायणमलोकयत सर्वत्र स ददर्शाध पूज्यमानं गुणेश्वरं क्वापि क्वापि मयूरेशं ददर्श विष्णुरूपिणम् पुनरालोकयं स्तन् मयूरेशमलोकयत भुजं स्वं परिगृह्येव बहिर्यादं स्वलीलया आक्षिप्य हस्तं सप्रायान्नायं स्वामी ममेति च अडद्गृहे गृहे शोधपूज्यमानं ददर्शः मयूरेशं वाद्यघोषैर्नृत्यगीतैरने कथा क्वापि दृष्ट्वा विष्णुरूपं नमस्कर्तुं यथाविधि पुनर्मयूरेशरूपं ददर्शस शिखिस्थितं गरुढारूढमन्यत्र शेषारूढं तथा क्वचिद नमस्कर्तुम् यतायाति विश्वदेवो मुदा यतः तावद्बर्हि समारूढम् पश्यति पुनः पुनः भुञ्जन्तम् च रमन्तम् च स्वपन्तम् च ददर्शसः तदखिन्नो विश्वदेवो वसिष्ठद्वारमागमद ततो ब्रवीण्मयूरेश पश्य ततः पराशरम् सोधददर्शपुरदस्थितम् मृण्मयैरुपचारैस्तम् पूजयन्तम् गणेश्वरम् भक्षयन्तं च लड्डूकान् मृण्मयान् देवमेव च पश्यति स्म पुनर्व्योम्निजले भूमौत्तमे वसः क्षणम् नारायणम् देवम् मयूरेशं क्षणादपि ततः स्वभेदबुद्धिम् स्वाम् सर्वभावेन तं नत्वा भेदधिया पुनः अनुज्ञादो मुदा प्रायाद्विश्वदेवस्वमाश्रमम् इति श्रीगणेशपुराणे क्रीडाखण्डे निरासो नाम पञ्चाधिकशततमोऽध्यायः ओ